कृष्णयजुर्वेदीय अच्छिद्रम् सर्वान् वा येषोऽग्नौ कामान् प्रवेश यदि योऽग्नीनन्वाधाय व्रतमुपैति स यदनिष्ठ्वा प्रयाद अकामप्रीदायनं कामानानुप्रयायुः अतेजा अवीर्य स्याद स जुहुयाद तुभ्यं ता अङ्गिरस्तम विश्वास्सुक्षितयः अग्ने कामाय येमिर इति कामानेवास्मिन् दधाति कामप्रीतायेन कामा अनुप्रयान्ति तेजस्वी वीर्यावान् भवति सन्ततिर्वा यशयज्ञस्य योऽग्निनन्वाधाय व्रतमुपैति स यदुत्वा यदि विच्छित्तिरेवास्य स तं प्राञ्चमुत्य मनसो प्रतिष्ठेद मनो वै प्राजापत्यो यज्ञः मनसैव संतनोति भूरित्याह भूतो वै प्रजापदिः भूदिमेवोपैति विवा एष इन्द्रियेण वीर्येणर्ध्यदे यस्या हिताग्नेरग्निरपक्षा यावमच्छम्यया प्रविध्येद यदि तावदपक्षायेद तगुं सम्भरेद इदं तयेकं पर उदयेकम् तृतीयेन संविशस्व संवेश्यनस्तनु वै चारुरेधि प्रिये देवानां परमे जनित्र इति ब्रह्मणैवैनगुं सम्भरति सैव तदप्रायश्चित्तिः यदि परस्तरामपक्षायेद अनुप्रया वस्येद स एव तदप्रायश्चित्तिः ओषधीर्वा एदस्य पशून् पयः प्रविशदि यस्य हविष्ये वत्सा अपकृता दयन्ति तान् यद्दुह्याद याद या अम्ना हविषा यजेत यन्न दुह्याद यज्ञपरुन्तरीयाद वायव्याम् यवा गों निर्वपेद वायोर्वै पयसप्रदापयिता स एवास्मै पयः प्रदापयधि पयो वा वोषधयः पयः पयः पयसैवास्मै प्रायश्चित्तिः अन्यतरान् वा येष देवान् भागधेयेन व्यर्धयति ये यजमानस्य सायं गृहमागच्छन्ति यस्य सायं दुग्धगम् हविरार्तिमार्च्छति इन्द्राय व्रीहीन्निरुव्योपवसेद पयो वा ओषधयः पय एवारभ्य गृहीत्वोपवसति यत्प्रादस्याद तत्रदं कुर्याद अधेतर इन्द्रपुरोडाश स्याद इन्द्रिये येवास्मै समीची दधाति पयो वा ओषधयः पयः पयः पयः सैवास्मै पयो वरुन्धे अधोत्तरस्मै हविष्ये वत्सानपा नपा कुर्याद सैव तदप्रायश्चित्तिः उभयान्वा देवान् भागधेयेन व्यर्थयदि ये यजमानस्य सायं च प्रातश्च गृहमागच्छन्ति यस्योभयगम् अविरार्तिमार्च्छति इन्द्रं पञ्चशरावमोदनं निर्वपेद अग्निं देवतानां प्रथमय्यजेद अग्निमुखा एव देवता प्रीणादि अग्निं वा अन्वन्या देवताः इन्द्रमन्वन्याः तायेवो पयीप्रीणादि पयो वा ओषधयः पयः पयः पयःसैवस्मै वरुन्धे वत्सानपा अधोरस्मिष्ये वत्सानपु तयश्चि अर्धो ताम येह यजेद कामु्यजेत ये यजदे तामिष्ठोपह्वेद अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सा माहं पृक्त्वं तावेहि सम्भवा व सहरेदो दधावह्वै पुगुंसे पुत्राय वेत्तवै रायस्पोशाय सुप्रजास्त्वाय सुवीर्यायेति अर्ध ये वै नामुपह्वयदे सैव अप्रजा अपश्युर्यजमानः यदनायतने निनयेद् अनायतनः प्राजापत्ययर्चा वल्मीकवपायामवनयेद प्राजापत्यो वै वल्मीकः यज्ञप्रजापतिः प्रजापदावेव प्रजा यज्ञं प्रतिष्ठापयधि भूरित्याह भूदो वै प्रजापतिः भूदिमेवोपैदि तत्वा अनिया दुनर् होंतव्यं सव तदप्राश्चि यीड़पन्न जुहुयाद अजा अपशु यजमाद यदनातनेनद अनायतन सियाद मध्यमेन पर्णे न्या पृथिव्ययर्चान्तः परिधिनिनयेद् द्या वा पृथिव्यो रे वैनत्प्रतिष्ठापयदि तत्कृत्वा अन्यां दुग्ध्वा पुनर्होदव्यम् सैव तदः प्रायश्चित्तिः यदववृष्टे न जुहुयाद अपरूप मस्यात्मञ्जायद किलासो वा यत्प्रत्ययाद यज्ञं विच्छिद्याद स जुहुयाद मित्रो जनान् कल्पयदि प्रजानन् मित्रोदार पृथिवीमुदद्यान् मित्रकृष्टिरमीषाचे सव्यम खुद वजुतेति मित्रे नैनत्कल तत्व अनिया्वा पुनर्द तित्ति यूसुत्या गुंबुदाया मुतरा हुदिस्कन्धेद द्विपाग्भिः पश्युभिर्यजमानो व्यरुद्ध्येद यदुत्तरयाभिजुहुयाद चतुष्पाद्भिपशुभिर्यजमानो व्यर्घ्येद यत्र वेद्धवनस्पदे देवानां गुह्यानामानि तत्र गव्यानिकामये दिवनस्पत्यर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयाद वनस्पतिनैव यज्ञस्यार्तां चानार्तां चाहुदिविदा धार तत्कृत्वा अन्याम् दुग्ध्वा पुनर्होतव्यम् श तद प्रायश्चि युरा प्रयाजभ्य प्रांगारस्कद्वे चजमनाय चाकघ्र सद यदि ब्रह्मणे चजमाय चा चाकघ्र सद य होत्रे जपत्नी यैजयजमानाय चागग् स्याद यदुदङ्ग अग्निधे च पशुभिश्च यजमानाय चागग् स्याद यदभिजुहुयाद रुद्रोऽस्य पशून् कातुकः यन्नाभिजुहुयाद अशान्तप्रह्रियेत स्रुवस्य बुध्नेनाभिनिदध्याद मा स्तमो मा यज्ञस्तमन्मा यजमानस्तमद नमस्ते अस्त्वायदे नमो रुद्रपरायदे नमो यत्र निषीदसि अमुं मा हिगुंसि रमु मा चिगुंसि यदि येन स्कन्देद तं प्रखरेद सहस्रशृङ्गो वृषभो जादवेदाः स्तोमपृष्ठो हृतवान् सुप्रतीकः मानो हासीन्मेभिदो नेत्वा जहाम गोपोषं नो वीरपोषं च यच्छेति ब्रह्मणैवैनं प्रहरति सैव ततः प्रायश्चित्तिः विवाहेष इन्द्रियेण वीर्येण अर्ध्यते यस्य हिताग्नेरग्निर्मध्यमानो जायते यत्रान्यं पश्येद् तत्र आहृत्य होतव्यम् अग्ना वेवास्या अग्निहोत्र गुं हुदं भवति यद्यन्यं न विन्देद अजाया गुं होतव्यम् आग्नेयीवा एषा यदजा अग्नावेवास्य अग्निहोत्र हुं हुदं भवति अजस्य तु यदजस्यास्नीयाद या मे वाज्ञा बाहुदिं जुहुयाद तामद्याद तस्मादजस्य नाश्यम् यद्यजां यद न विन्देद ब्राह्मणस्य दक्षिणे हस्ते होतव्यं यष वा अग्निर्वैश्वानरः अग्ना गुण् कुदं भवति ब्राह्मणं तु वसत्यै नापरुन्ध्याद यद्ब्राह्मणं वसत्या अपरुन्ध्याद यस्मिन्नैवाग्ना वाहुदिञ्जुयाद तं भागध्येये न व्यर्थयेद् तस्माद् ब्राह्मणो वसत्यै नापरुद्ध्यः यदि ब्राह्मणं न विन्देद दर्भस्तम्भे होदव्यम् अग्निवान् वै दर्भस्तम्भः अग्नावेस्य अग्निहोत्र गुंहुदं भवति दर्भागस्थो नाध्यासीदा यत् दर्भानाध्यासीद या मे वाज्ञा वाहुदिं जुहुयाद तामध्यासीद तस्मात् दर्भा नाध्यासितव्याः यदि दर्भान्न विन्देद अप्सु होतव्यम् आपो वै शर्वा देवताः देवतास्वो <Sess> वास्याग्निहोत्रगुंहुदम् भवति आपस्तु न परिचक्षीद यतापःपरिचक्षीद यां मे वाप् स्वाहुदिं जुहुयाद तां परिचक्षीद तस्मादापो न परिचक्ष्याः मेध्या च तनुवौ सगुं सृज्येते यस्या हिताग्नेरण्यैरग्निभिरग्नयः सगुं सृज्यन्ते अग्नये विविचये पुरोडाश्यमष्टाकपालं कपालं मेभ्यां चैवास्य चैवास्या च तनुवौ व्यावृतयदि अग्नये व्रतपदये पुरोडाशमष्टा कपालं निर्वपेद अग्निमेव प्रतिपदि गृस्वेन भागध्येयेनोपधावति स एव वै नौ व्रतमालम्भयति गर्भगृस्रवन्तमगदमकः अग्निरिन्द्रस्त्वष्टा बृहस्पतिः पृथिव्या मवचोश्चोत्तैतद नाभिप्राप्नोदिनिरृतिं परा चैः रेतो वा यदद्वाजिनमाहिताग्नेः यदग्निहोत्रं तद्यत्स्रवेद रेतोऽस्य वाजिनग्भिः स्रवेद गर्भग्रवन्तमगदमगरित्याह रेदयेवास्मिन् वाजिनं दधाति अग्निरित्याह अग्निर्वै रेदोधाः रेद एव तद्दधाति इन्द्र इत्याह इन्द्रियमेवास्मिन् दधाति त्वष्टेत्याह स्पष्टा वै पशूनां मिथुनानागुं रूपकृद रूपमेव पशुषु दधादि बृहस्पतिरित्याह ब्रह्म वै देवानां बृहस्पतिः ब्रह्मणैवास्मै प्रजाः प्रजन यदि पृथिव्या मवचुश्चोतैतदित्याह अस्या मे वै न प्रतिष्ठापयति नाभिप्राप्नोति निरृतिं पराचैरित्याः रक्षसामपहत्यै या पुरस्तात् प्रस्रवन्ती उपरिष्ठा सर्वतश्च याः ताभि श्रद्धा यज्ञमारभे देवा गादुविदः गादु यज्ञाय विन्दद मनसस्पदिना देवेन वादा यज्ञप्रयुज्यता हृदि यस्यै दिवः गायत्र्या सोम आभृतः सोमपिधाय सन्नयितुम् वकलमन्तरमाददे आपो देवी शुद्धास्थ इमा पात्राणि पयो गृहेषु पयो अग्न्यासु पयो वत्सेषु पय इन्द्राय अविषे ध्रियस्व गायत्री पर्णवल्केन पयसोमं करोत्विमम् अग्निं गृह्णामि सुरधयो मयोभूः य उद्यन्तमारोहदि सूर्यमग्ने आदित्यं ज्योतिषां ज्योतिरुत्तमं स्वो यज्ञाय रमतां देवताभ्यः वसून् रुद्रानादित्यान् इन्द्रेण सह देवताः ताः पूर्वः परिगृह्णामि स्व आयतने पञ्चदशी ये प्रविष्टाः तान् देवान् परिगृह्णामि पूर्वः अग्निर्हव्यवाडिवतानावहतु पौर्णमासगं हविरिदमेष्यां मयि आमावास्यगं हविरिदमेष्यामयि अन्तराग्नि पशवः देवसगम् सदमागमन् तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया इह प्रजा विश्वरूपा रमन्ताम् अग्निं गृहपदिमभि संवसानाः तान् पूर्व परिगृह्णामि स्व आयतने इह पशवो विश्वरूपा रमन्दाम् अग्निम् गृहपदिमभि संवसानाः तान् पूर्व परिगृह्णामि स्व आयतने मनीषया अयं पितृणामग्निः अवाढव्या पितृभ्य तं पूर्वपरिगृह्णामि अविशम्न पिदुं करद अजस्रं त्वागुं सभा पालाः विजयभागगुं समिन्धदाम् अग्ने दीदाय मे सभ्य विजित्यै शरदशतम् अन्नमावसधियम् अभिहराणि हराणि शरदशतम् आवसदे श्रियं मन्त्रम् आखिर्बोध्नियो नियच्छतु इदमहमग्निज्येष्ठेभ्यः वसुभ्यो यज्ञं प्रब्रवीमि इदमहमिन्द्रज्येष्ठेभ्यः रुद्रेभ्यो यज्ञं प्रब्रवीमि इदमहं वरुणज्येष्ठेभ्यः आदित्येभ्यो यज्ञं प्रब्रवीमि पयस्वधीरोषधयः पयस्वद्वीरुधां पयः अपां पयसो यत्पयः तेन मामिन्द्रसगुंसृज अग्ने व्रतपदे व्रतं चरिष्यामि तच्चकेयं तन्मे राध्यताम् वायो व्रतपद आदित्यव्रतपदे व्रतानां व्रतपदे व्रतं चरिष्यामि तच्च केयं तन्मे राध्यदाम् इमां प्राचीमुदीचीं ईश मूर्जमभिषघुस्कृतां बहुपर्णामशिष्काभ्राम् हरामि पशुपामहं यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन तदस्त्वा त्रेन कविगुंशदिधा सम्भरामि सुसंभृता प्रेन् परिधिगृष्टिस्रसमिधः यज्ञायुरनुसञ्चरान् उपवेशं मे क्षणं दृष्टिम् सम्भरामि सुसम्भृता या जादा ओषधयः देवेभ्य स्त्रियुगम् पुरा तासाम् पर्वराध्यासं परिस्तरमाहरन् अपा मेध्ययज्ञियम् सदैव गुं शिवमस्तु मे जीवानि शरदः शदम् अपरिमितानां परिमिताः संनह्ये सुकृतायकं येनो मानि गां पुनरुद्धाय बहुला सकृदाचिह्नं बर्हिरूर्ना मृदु स्योनं पिदर्भ्यस्त्वा भराम्यहम् अस्मिन् सीदन्तु मे पितरः सोम्याः पिता महाप्रपिता महाश्चानुगैः सह त्रिवृत्पलाशे दर्भः इयान् सम्मितः यज्ञे पवित्रं हो दृतमं पयो हव्यं करोतु मे इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः आप्याययन्तौ संचरतां पवित्रे हव्यशोधने पवित्रे स्थो वैष्णवी युर्वां मनसा पुनातु अयं प्राणश्चापानश्च यजमानश्चमपि गच्छतां यज्ञे ह्य भूतां पोतारौ पवित्रे हव्यशोधने त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः अच्छिद्रं यज्ञमन्वेषि विद्वान् त्वया होदा सन्तनोत्यर्धमासान् त्रयस्त्रिगुं शोषि तन्तूनां पवित्रेण सहा गहि शिवे यगुं रज्जुरभिधानी अग्नीयामुपसेवताम् प्रसगुंसाय उके उपे उपदधाम्यहम् पशुभिः सं नीदम् बिभृताम् इन्द्राय श्रुतं दधि यज्ञाय त्वाम् परिवेषमधारयन् इन्द्राय अविकृन्तः शिवशग्मो भवासिनः अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यतां तिरपवित्रमदिनिदाः आपो धारय मातिगुः देवेन सवित्रोत्पूताः वसो सूर्यस्य रश्मिभिः गां पवित्रे सर्वपात्राणि शुन्धद यदा आचरन्ति मधु मदुहानाः प्रजावदीर्यशसो विश्वरूपाः बह्वीर्भवन्तीरुपजायमानाः इह व इन्द्रो रमयदुगावः पुरुषास्थ अयक्ष्मा वः प्रजया सगुं सृजामि रायस्पोषेण बहुला भवन्तीः ऊर्जं पयः च जीवो जीवन्तीरुपवः सदेयं द्यौश्चे मयज्ञं पृथिवी दादा मेन सहवातेन वायुः यजमानाय द्रविणं दधातु उत्सं दुहन्ति कलशं च दुर्बिलम् इडां देवीं मधुमदीगुं सुवर्विदं तदिन्द्राग्नििन्वदगुं सुनृता वद तद्यजमानात्मृत्तत्वे दधातु कामदुःखप्रणो ब्रूहि इन्द्रायः विरिन्द्रियम् अमुं देवानां मनुष्याणां पयोहिदं बहु दुग्धेन्द्राय देवेभ्यः हव्यमाप्यायतां पुनः वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पदां यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अधस्तमसि विष्णवेत्वा यज्ञायापि दधाम्यहम् अद्भिररिक्तेन पात्रेण या परिशेरदे अयं पयः सोमं कृत्वा स्वां योनिमपि गच्छतु पर्णवल्पः पवित्रं सौम्यसोमाधिनिर्मिदः इमौ पर्णं च दर्भं च देवानागुंहव्यशोधनौ गोपाय विष्णोः व्यगुं हि रक्षसि उभावग्नि उपस्तृणदे देवता उपवसन्तु मे अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून देव देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्विधी या तृतीयेषु त्रिरेकादशा इह मा वद इदगुं शकेयं यदिदं करोमि आत्मा करोत्वात्मने इदं करिष्ये भेषजं इदं मे विश्वभेषजा अश्विना प्रावदम् युवम् इदमहगुम् सेनाया अभि त्वर्यै मुपमपोहामि सूर्यज्योतिर्विभाहि महद इन्द्रियाय अप्यायदां हृद योनिः अग्नेर्हव्यानुमन्यदां कमङ्क्ष्व त्वच मङ्क्ष्व सुरूपं पशूनां तेजसा अग्नये जुष्टमभिकारयामि स्योनं ते सदनं करोमि हृदस्य धारया सुशेवं कल्पयामि तस्मिन् सीता मृदे प्रतिष्ठ मेधसुमनस्य मानः आर्द्र प्रधस्नोर्भुवनस्य गोपाः श्रुत उष्णादिजनिता मदीनां यस्त आत्मा पशुषु प्रविष्टः देवानां विष्ठामनु योविधस्ते आत्मन्वान् सोम कृधवान् भूत्वा देवान् गच्छ सुविर्विन्द यजमानाय मह्यम् इरा भूदिः पृथिव्यैरसो मोत्क्रमीद देवापिदरः पिदरो देवाः योऽहमस्मि सन् यजे त्यस्यास्मिन् तमन्तरेमि स्वं म इष्टग् स्वं दत्तं स्वं पूर्तग् स्वगृश्रान्दं स्वगुंहुदं तस्य मेग्निरूपद्रष्टा वायुरूपश्रोधा आदित्योऽनुख्याधा द्याः पिता यये प्रजापतिर्बन्धुः ययेवास्मि सन्यजे मा भेर्मा संविक्था मात्वा हिगुंसिषं मा, मा ते ते चोपक्रमीद भरदमुग्धरे मनुषिं प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिगुंसीः यदवदानानि ते वद्यन् विलो मा कार्षमात्मनः आज्येन प्रत्यनच्म्येनद तत् आप्यायतां पुनः आज्ञायो यवमात्राद आव्याधाकृत्यदामिदं मारुपामयज्ञस्य च्युद्धग्स्विष्टमिदगुम् मनुनादृष्टाम् मनुना धृष्टां कृतपदिम् मित्रावरुणसमीरिदां दक्षिणार्धा दसंभिन्दन् अवद्य मेकतो मुखाम् इडे भागं जुषस्वनः जिन्वगाजिन्वार्वतः तस्यास्ते भक्षिवाणस्याम सर्वात्मानः सर्वगणाः ब्रध्नपिन्वस्व ददो मे माक्षायी कुर्वदो मे मोपदसद दिशां पुरुक्तिरसि दिशो मे कल्पन्दां कल्पन्दां मे दिशः दैवीश्च मानुषीश्च अहोरात्रे मे कल्पेदाम् अर्धमासा मे कल्पन्दां मासा मे मे कल्पन्दां संवत्सरो मे कल्पन्दां कृप्तिरसि आशानां त्वाशापालेभ्यः चतुर्भ्यो अमृतेभ्यः इदम् भूदस्याध्यक्षेभ्यः विधेमहविषा वयम् भजताम् भागीभागम् मा भागो भक्ता निरभागं भजामः अपविन्व ओषधिर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय ब्राह्मणानामिदगुं हविः सौम्यानागुं सो सोमपीतिना निर्भक्तो ब्राह्मणः नेहाब्राह्मणस्यास्ति समङ्कदां बर्हिर्हविष कृतेन स मादित्यैर्वसुभिः सं मरुद्भिः समिन्द्रेण विश्वेभिर्देवेभिरङ्कदां दिव्यं न भो इन्द्राणि वा विधवा भूयासम् अदितिरिव सुपुत्रा अस्तूरित्वा गार्सपत्य उपनिषदे सुप्रजास्त्वाय सम्पत्नी पत्या सुकृतेन गच्छताम् यज्ञस्य युक्तौ दुर्यावभूतां संजानानौ विजहदामरादिः दिविद्यो दिरजरमारभेदां दशते तनुवो यज्ञयज्ञियाः ताप्रीणादु यजमानो कृतेना नाजिष्ठयो प्रशिषमीडमानः देवानां दैवेऽपि नारिष्टयो प्रशिषमीडमानः देवानां दैव्येऽपि यजमानो मृतोऽभूद यं वा अं देव अकल्पयन् ऊर्जोभागुं शतक्रदु ये दद्वां तेन प्रीणानि तेन तृप्यतमगुं हौ अहं देवानागुं सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवादि अहं नारिष्टावनु यजामि यदाभ्यामिन्द्रो अदधागधेयम् अदाराश्रुद्धवदेव सोम अस्मिन् यज्ञे मरुदो मानो विददभिभामो अशस्तिः मानो विदद्वृजनाद्वेष्याय वृषभं वाजिनं वयं पूर्णमासयजमहे स नो दोहतागुं सुवीर्यम् रायस्पोषगुं सहस्रृणम् प्राणाय सुराधसे अमावास्या सुभगा सु धेनुरिव भूय आप्यायमाना स नो दोहतागुं सुवीर्यम् रायस्पोषगुं सहसृणम् अपानाय सुराधसे अमावास्यायै स्वाहा अभिस्तृणीः परिधेहि वेदिम् जमिम्मा किगुंसी तु मया शयाना हो दृशना हरितास् सुवर्णाः निष्का इमे यजमानस्य ब्रध्ने परितृणीदपरिदत्ताग्निं परिहृदोऽग्निर्यजमानं भुनक्रु अपागुं रस सुवर्णः निष्कायिमे यजमानस्य सन्दुकामदुःखाः अमुत्रामुष्मिन् लोके भूपदे भुवनपदे महदो भोधस्य पदे ब्रह्माणं त्वावृणीमहे असं भूपदिरसं भुवनपदिः अहं महदो भूतस्य पतिः देवेन सवित्रा प्रसूद आर्त्विज्यं करिष्यामि देवसवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्मणं तदहं मनसे प्रब्रवीमि मनो गायत्र्यै गायत्र्यी तिष्ठुभे तिष्ठुजगत्यै जगत्यनुष्टुभे जगत्य अनुष्टुपङ्क्त्यै पङ्क्ति प्रजापदये प्रजापदिर्विश्वेभ्यो देवेभ्यः विश्वे देवा बृहस्पदये बृहस्पतिर्ब्रह्मणे ब्रह्मभो भुवः सुवः बृहस्पतिर्देवानां ब्रह्मा अकं मनुष्याणां बृहस्पदे यज्ञं गोपाय इदं तस्मै हर्म्यं करोमि यो गो देवाश्चरदिब्रह्मचर्यं मेधावी दिक्षु मनसा तपस्वी अन्धर्दुदश्चरदि मानुषीषु चतुःशिखण्डा युवदिः सुपेशाः कृतप्रतीका भुवनस्य मध्ये मर्मृज्यमाना महदे सौभगाय मह्यं धुक्ष्व यजमानाय कामाना भूमिर् भूत्वा महिमानं पुपोष तदो देवी वर्धयदे पयागुंसि यत्नीया यत्नं विचयन्दिशं च वोषधीराप इहशक्वरीश्च यो मा हृदा मनसा यश्च वाचा यो द्वेष्टि ब्रह्मणा कर्मणाद्वेष्टिदेवाः यच्छ्रुतेन हृदयेनेष्णता च तस्येन्द्रवज्रेण शिरश्चिनग्मि ऊर्णा मृदु प्रथमानग्स्योनं देवेभ्यो जुष्टगुं सदनाय सुवर्गे लोके यजमानुंधे मार्च पृष्ठ परमें व्योमन चिखंडा युवति सुपेश्रदीका वयुनावस्ते सा महधे सौभगा सामे मे धुक्ष्व यजमानायपमान शिवा च मे शग्मा चैधि स्योना च मे पिन्वस्व ब्रह्मतेजो मे पिन्वस्व क्षत्रमोजो मे पिन्वस्व विश्वं पुष्टिं मे पिन्वस्व आयुरन्नाद्यं मे पिन्वस्व प्रजां पशून्मे पिन्वस्व अस्मिन् यज्ञ उपभूय इन्नु मे अविक्षोभाय परिधिन् ददामि धर्ताधरुणो धरीयान् अग्नेर्द्वेषागुंसि निरितोनुदादै विश्चिनद्मि विधृतिभ्यागुं सपत्नान् जादान् भ्रादुर्व्यान्ये च जनिष्यमाणाः विशो यन्त्राभ्यान् विधमाम्येनान् अकग् स्वानामुत्तमोऽ सनि देवाः विश्वयन्त्रेऽनुदमाने अराधिं विश्वं पाप्मानमम किं दुर्मरायुं सीदन्ती देवी सुकृतस्य लोके धृतिस्थो विधृति स्वधृती प्राणान्मयि धारयदम् प्रजांमयि धारयदम् पशोन्मयि धारयदम् अयं प्रस्तर उभयस्य धर्ता धर्ता प्रया जाना मुदा नूया जाना सदा विश्वरूपाः तस्मिन् श्रोचो अध्यासादयामि आरोह पदों जुहुदेव यथम जाए पुराणा हिण्यपक्ष जिरा संभृता वहासी मृदा अवा बाध उपभृता उपृता सपत्ना भ्रतुव्याण दोहै यज्ञ सुदुखावधेनु अहुतरो भूयासम अधरे मत्सपत्ना यो माचा मा मनसा दुर्मरायु हृदाराधिया दभिधा सदग्ने इदमस्य चित्तमधरं ध्रुवायाः अहमुत्तरो अधरे मत्सपत्नाः वृषभोऽसि शाक्वरः कृताचीनागुं सूनुः प्रिये, प्रिये सदसि सीदस्योनो सीद सुशब्दः प्रधिव्या, प्रथयि प्रजया पशुभिः सुवर्गे लोके दिवि सीद पृथिव्यामन्तरिक्षे अहमुत्तरो भूयासम् अधरे मत्सपत्नाः यग्स्थालीकृतस्य पूर्णा अच्छिन्नपया शदधार उत्सः मारुतेन शर्मणा दैव्येण यज्ञोऽसि सर्वतः सर्वतो मां भोदं भविष्यच्छ्रयदां शतं मे सन्द्वाशिषः सहस्रं मे सूनृताः इरावती पशुमतिहि प्रजापदिरसि सर्वतः श्रुतः सर्वतो मां बोधं भविष्यच्छ्रयदां शतं मे सन्द्वाशिषः सहस्रं मे सन्धुसूनृताः इरावदिः पशुमतीः इदमिन्द्रियममृदं वीर्यम् अनेनेन्द्राय पशवो चिकित्सन् तेन देवा अवतोपमाम् इहेषर्जं यशः सह ओजः सनेयं श्रुतं मयिश्रयतां यत्पृथिवी मचरत्तत्प्रविष्टम् किञ्चत् बलमिन्द्रे प्रजापदिः इदं तच्छुक्रं मधुवाजिनीवद येनो परिष्ठा दधि नोन्महेन्द्रं दधि मां धिनोदु अयं वेदः पृथिवीमन्वविन्दद गुहा सदीं गहने गह्वरेषु स विन्दतु यजमानायलोकम् अच्छिद्रयज्ञं भूरि कर्मा करोतु अय्य यज्ञः समस साम्ना यजुषा देवताभिः तेन लोकान् सूर्यवतो जयेम इन्द्रस्य सख्यममृतत्वमस्यान् यो नः अस्मिन् यज्ञे यजमानाय मह्यम् अप तमिन्द्राग्नि भुवनानुदेधान् अहं प्रजां अग्ने वाजजित वाजं त्वा वाजं जेष्यन्तं वाजिनौ वाजजितं वाजित्यायै सम्मार्ज्मि अग्निमन्नादमन्नाद्याय उपहोदोऽध्यौ पिदा उपमां द्याौ पिदाह्वयदाम् अग्निराग्निध्राद आयुषे वर्चसे जीवात्वै पुन्याय पुण्याय उपहोदा पृथिवीमाद उप मां मादा पृथिवी त्व यदाम् अग्निराग्नीध्राद आयुषे वर्चसे जिह्वात्वैपुण्याय मनो ज्योतिर्जुष्रदामाज्यं विच्छिन्नं यज्ञगुं समिमं दधादो बृहस्पतिस्तनुदामिमं नः विश्वे देवा इह मादयन्तां दे यन्ते अग्न आवृच्छामि असं वा क्षिपितश्चरन् प्रजां च मूलं च नीचैर्देवा निवृच्छदा अग्ने यो नोऽभिधासदि समानो यश्च निष्ठ्यः युद्धमस्येव प्रक्षायतः मा तस्योच्चेषि किञ्चन यो मां द्वेष्टि जादवेदः यञ्चाहं द्वेष्मि यश्च मां सर्वाग्रस्तानग्ने सन्दः या गृश्चाहं द्वेष्मि ये च अग्ने वाजजित वाजं त्वा सस्रुवागुंसं वाजं जिगिवागुंसं वाजिनं वाजजितम् वाजित्या यै समाज्मि अग्निमन्नादमन्नाद्याय वेदिर्बर्हि श्रुतगुंहविः युधपरीधयस्रुच आजयचो यजु याज्या वषट्कारा सं मे हने नमता यने दिवकोवत पृथिव्यादि तेना सहस्रकाण्डेन द्विषन्दगुं शोचयामसि द्विषन्मे बहु शोचतु ओषधे मो अहगुं शुचं यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवे न मे नमे ोन मे संतिस्व सुभूतेन मे संतिस्व ब्रह्मवर्चस मे संतिस्विमुसस्व उपते यम उपदे नम उपते नम त्रृष्वरी क्रियमाण योऽन्यङ्गो अवशिष्यदे रक्षसाम्भागधेयम् आपस्तत्प्रवहतादिदः उलूकले मुसले यच्च शूर्पे आशिश्लेष दृषति यत्कपाले ए अवपृषो विश्वेदेवा हविरिदं जुषन्तां यज्ञेया विप्रशुसन्ति बह्वीः अग्नौता सर्वास्विष्ठाः सुहृता जुगोमि उद्यन्नमित्रमहः सपत्नान्मे अनीनशः दिवैनान् विद्युदा जहि निम्रोचन्नधरान् कृधि उद्यन्न विनो भज पिता पुत्रेभ्यो यथा दीर्घयुत्वस्य हे शिषे तस्य नो देहि सूर्य उद्यन्न मित्रमहः आरोहन्यत्तरां दिवं हृद्रोगं मम सूर्य हरिमाणं च नाशय शुकेषु मे हरिमाणं रोपणाकासु दद्मसि अधो हरिद्रवेषु मे हरिमाणं निदध्मसि उदबादयमादित्यः विश्वेन सहसा सह द्विषन्दं मम रन्धयन् मो अहं द्विषतो रधं यो न शपादशपदः यश्च न शपदशपाद उषाश्च तस्मै निमृच्च सर्वम् पापगुं समूहतां यो नः मर्तो यो रणः मर्तोऽभि दास्यदि देवाः शरो ब्रह्मसगुं शितः गच्छामित्रान् प्रविश मयिषां कञ्चनोच्छिषः सक्षेदम्पश्य विधर्तरि दम्पश्य नागेदम्पश्य रमधिपनिष्ठा हृदौ वरुषिष्ठम् अमृदायान्याहुः सौर्यो वरिष्ठो अक्षभिर्विभा अनुद्या वा पृथिवी देवपुत्रे दीक्षांसि तपस्सो योनिः तपोसि ब्रह्मणो योनिः ब्रह्मसि क्षत्रस्य योनिः क्षत्रमस्य ऋतस्य योनिः ऋतमसि भूरारभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नीं सर्वे कामा यजमानस्य सन्धो वा तं प्राणं मनस्सान्वारभामहे प्रजापदियो भुवनस्य गोपाः स नो मृत्योऽस्त्रा यदां जोग जीवा जोग्जीवा जरामहीमही इन्द्रशाक्वरगायत्रीं प्रपद्ये तां ते युनच्मि इन्द्रशाक्वरतिष्टुभं प्रपद्ये तां ते युनच्मि इन्द्रशाक्वरजगदीं प्रपद्ये तां ते युनक्मि इन्द्रशाक्वरानुष्टुभं प्रपद्ये तां ते युनच्मि इन्द्रशाक्वरपङ्क्तिं प्रपद्ये तां ते आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेणच्छन्दसा ब्रह्मणा च हृतगुंसत्येधाये सत्यमते धाये ऋत च मे सुवरगमं ज्योतिरभुवग सुवरगम सुवर्गलोकनाक पृष्ठ ब्रध्न सेम पृथिवी दीक्षा तया जनिर्दीक्षया दीक्षितः यया जदीक्षया दीक्षितः तया त्वा दीक्षया दीक्षयामि अन्तरिक्षं दीक्षा तया वायोदीक्षया दीक्षितः यया वायोदीक्षया दीक्षितः तया त्वा दीक्षया दीक्षयामि द्यौर्दीक्षा तया दित्यो दीक्षया दीक्षितः यया दित्यो दीक्षया दीक्षितः तया त्वा दीक्षया दीक्षयामि दीक्ष्यो दीक्षा तया चन्द्रमा दीक्षया दीक्षितः यया चन्द्रमा दीक्षया दीक्षितः तया त्वा दीक्षया दीक्षयामि आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितः यया वरुणो राजा दीक्षया दीक्षितः तया दीक्षयामि ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितः यया दीक्षया दीक्षितः तया दीक्षया दीक्षयामि वाग्दीक्षा तया प्राणोदीक्षया दीक्षितः या प्राणोदीक्षया दीक्षितः तया त्वा दीक्षया दीक्षयामि पृथिवी त्वा दीक्ष माणमनुदीक्षताम् अन्तरिक्षं त्वा दीक्ष माणमनुदीक्षतां द्याौस्त्वा दीक्ष माणमनुदीक्षतां दिश्यस्त्वा दीक्षमाणमनुदीक्षन् दाम् आपस्त्वादीक्षमाणमनुदीक्षन् दाम् ओषधयस्त्वादीक्षमाणमनुदीक्षन् दां वाक्त्वा दीक्षमाणमनुदीक्षदां ऋचस्त्वादीक्षमाणमनुदीक्षन् दां सामानित्वादीक्षमाणमनुदीक्षन् दाम् यजोगुं षित्वा दीक्षमाणमनुदीक्षन्दाम् अफश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्च आपश्चौषधयश्च पूर्चसूनृता च तास्त्वा दीक्षमाणमनुदीक्षन्दां स्वे दक्षे दक्षपिदेहसीद देवानागुं सुम्नो मखदेरणाय स्वासस्तनु वा संविशस्व पिधे वैधिसूनव शिवो मा शिव मा विश सत्यम् आत्मा श्रद्धा मे क्षिधिः तपो मे प्रतिष्ठा सवितृप्रसूदामादिशो दीक्षयन्तु सत्यमस्मि अहं त्वदस्मि मदसि त्वमेतद् ममासि योनिस्तव योनिरस्मि ममैव सन्वहव्यग्ने पुत्रपित्रे लोक कृज्जादवेदः आजुह्वानः सुप्रतीकपुरस्ताद अग्नेष्व योनिमासीदशाध्या अस्मिन् सधस्ते अद्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदद एकमिषे विष्णुस्त्वान्वेदो द्वे ऊर्जे विष्णुस्त्वान् वेदो त्रीणि व्रताय विष्णुस्त्वान् वेदु चत्वारिमायो भवाय विष्णुस्त्वान् वेदु पञ्चपशुभ्यो विष्णुस्त्वान् वेदु षड्राय स्पोषाय विष्णुस्त्वान् वेदु सप्तसप्तभ्यो होत्रा अभ्यो विष्णुस्त्वान्वेदो सखायः सप्तपदा अभूम सख्यं ते गमेह सख्याते मा सख्यान्मे मा योष्ठाः सासि सुब्रह्मण्ये तस्यास्ते पृथिवीपादः सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः सासि सुब्रह्मण्ये तस्यास्ते द्यौःपादः सासि सुब्रह्मण्ये तस्यास्ते, सु तस्यास्ते दिशः परो रजास्ते पञ्चमः पादः स तेज इन्द्रियं ब्रह्मवर्चसमन्नाद्यं विमि मे त्वा पयस्वदीं देवानां धेनुगुं दे सुदुःखा मनपस्फुरन्तीम् इन्द्रसोमं पिबतु क्षेमो अस्तु नः इमां नरः कृणुदवेदिमेत्य वसुमदिगुं रुद्रवदीमादित्यवदीं वर्ष्मन्दिवः नाभा पृथिव्याः यथा यजमानो नरिष्येद देवस्य सविदुत्सवे चतुःशिखण्डायुवदि सुपेशाः कृतप्रतीका भुवनस्य मध्ये तस्यागुं सुपर्णावधि यौ निविष्टौ तयोर्देवानामधिभागधेयम् अपजन्यं भयं नुद अपचक्राणि वरुदय बृहगं सोमस्य गच्छतं न वा उवे तन्म्रियसे न देवागुम् इदेशि पदिभिः सुगेभिः यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवः सविता दधादु यदस्य परे रजसः शुक्रं ज्योतिरजा यद तन्नः अग्ने वैश्वानर स्वाहा यस्माद्भिर्षा वासिष्ठाः तदो नो अभयं कृधि प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुषे यस्माद्भिर्षा न्यषदः तदो नो अभयं कृधि प्रजाभ्यवाभ्यो मृ नमो रुद्रय मेढुषे उदुस्रति प्रतिमेम यम यजम चरीष सुवर्गे लोगे लोके यजम गुमिधे सन्निुपदेशुष्प यस्माद्भिषावेपिष्टाः पलायिष्ठा समज्ञास्ताः तदो नो अभयं कृधि प्रजाभ्य सर्वाभ्यो मृड नमो रुद्राय मेढुषे ययि तस्मै नमः तस्मै स्वाहा न वा उभेदन् म्रियसे आशानां त्वा विशा आशाः यज्ञस्य हिस्तरियौ इन्द्रा अग्निचेतनस्य च हुता हुतस्य अहुतस्य हुतस्य च चा। हुतस्य चाहुतस्य च चा। अकुतस्य कुतस्य च इन्द्राग्ने अस्य सोमस्य वेदं पिबदं जुषेधाम् मा यजमानं तमोविदध मत्वेजोमो इमा प्रजाः मा यः सोममिमं पिबाद सगुंसृष्टमुभयं कृपम् अनागस्वस् त्वा वयम् इन्द्रेण प्रेषिता उप वायुष्ठे अस्त्वगुं शभुः मित्रस्थे अस्त्वगुं शभुः वरुणस्ते अस्त्वगुं शभुः अपां क्षया ऋतस्य गर्भाः भुवनस्य गोपाश्येना अतिधयः पर्वतानां खगुभक् प्रयुतो नपातारः वग्नेन्द्रगह्वयद कोषेणामी वा कृतयद युक्तास्थ वहद देवाग्रावाण इन्दुरिन्द्र इत्यवादिषुः येन्द्रमचुच्यवुः परमस्याः परा वदः आस्मात्सधस्ताद ओरोरन्तरिक्षाद आ सुभोदमसुषवुः ब्रह्मवर्चसम् आशुषवुः समरे रक्षागुंस्य वधिषुः अपहदं ब्रह्मज्यस्य वाक्चत्वा मनश्च श्रृणीतां प्राणश्चत्वापानश्च श्रेणीतां चक्षुश्चत्वा श्रोत्रं श्रेणीतां दक्षश्चत्वा बलं च श्रेणीदाम् ओजश्चत्वा सगश्चश्रेणीदाम् आयुश्चत्वा जरा च श्रेणीदाम् आत्मा चत्वा तनुश्च श्रीणिदा श्रुतोऽसि श्रुतं कृतः श्रुता यत्वा श्रुतेभ्यस्त्वा यमिन्द्रमाहुर्वरुणं यमाहुः यंमित्रमाहु यमुसत्यमाहुः यो देवानां देवदमस्तपो तस्मै त्वा मयि त्यदिन्द्रियं महद मयि दक्षो मयि क्रदुः मयि धायि सुवीर्यम् त्रिसुघर्मो विभादु मे अभूत्या मनसा सह विराजाज्योतिषासह यज्ञपयसा सह तस्य मखी, तस्य सुम्नमषीमहि तस्य भक्षमषीमहि वाजुषाणा सोमस्य तृप्यदो मित्रो जनान्प्रसमित्र यस्मान्नजाधः परो अन्यो अस्ति य आविवेशभुवनानि विश्वान् प्रजापति प्रजया संविदानः त्रीणि ज्योतिगिंषि सचदे स षोडशी यषब्रह्माय ऋत्वियः इन्द्रो नामश्रुदो गणे प्रते ते महे विदधे शगुंसिषगुं हरी य वन्वे मनुषो हर्यदं मदम् इन्द्रो नाम हृदं नयः हरिभिश्चारुषे च ते श्रुतो गण आत्वा विशन्तु हरिवर्पसं गिरः इन्द्राधिपतेधिपतिस्त्वं देवानामसि अधिपतिं माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु इन्द्रश्च सम्राट् राजा तौते ते भक्षं चक्रतुरग्र एदं तयोरनुभक्षं भक्षयामि वाग्जुषणा सोमस्य तृप्यदु प्रजापतिर्विश्वकर्मा तस्य मनो देवैयज्ञेन राध्यासम् अर्धे अस्य जहितः अवसानपदे वसानम्मे विदन्द नमो रुद्राय वासोष्पदये आयने विद्रवणे उद्याने यत्परायणे आवर्तने विवर्तने योगो गोपायदि तगुंहुवे यान्या पामित्यान्यप्रतीतान्यस्मि यमस्य बलिना चरामि इहैव सन्धप्रति तद्यादयामः जीवा जीवेभ्यो निहराम येन अनृणा अस्मिन्नृणा परस्मिन् तृतीये लोके अनृणास्याम ये देवयाना उदपि दृयाणाः सर्वा अन्पथो अनृणा अक्षीयेम इदमो नु श्रेयोवसानमागन्म शिवे नो द्या उभे इमे गोम धनव दश्वव दोर्जस्वद सुवीरा वीरैरनुसञ्चरेम अर्कपवित्रगं रजसो विमानः पुनादिदेवानां भुवनानि विश्वा द्या वापृथिवी पयसा संविधाने कृतं दुहादे अमृतं प्रपीने पवित्रमर्को रजसो पुनादि पुनादिदेवानां भुवनानि विश्वा सुवर्जो दीर्घस्यो महद अशी महि गाधमुदप्रदिष्ठाम् उदस्तां सीत् सविता मित्रो अर्यमा सर्वानमित्रवधिद्युगेन बृहन्दं मामकरद्वीरवन्दं रथन्तरे श्रयस्व स्वाहा पृथिव्यां वामदेव्ये श्रयस्व स्वाहान्तरिक्षे बृहदिश्रयस्व स्वाहा बृहदा तो तोपस्थभ्नोमि आत्वा ददे यशसे अस्मा स्वग्नियायोयं दधा दधाधेन्द्रियं पयः यस्ते द्रब्सो यस्त उदर्शः दैवके दुर्विश्वं भुवनामाविवेश स नः पाकर्यष्ठै स्वाहा अनु मां सर्वो यज्ञो यमेदो विश्वेदेवामरुदशामार्कः अप्रियच्छन्ता गुंसि निविदो यजोगुंषि अस्यै पृथिव्यै यद्यज्ञियं प्रजापतिर्वर्तनिमनुवर्तस्व अनु वीरैरनुराध्यामगोभिः अन्वश्वैरनु सर्वैरुपुष्टैः अनुप्रजयान्विन्द्रियेण देवानो यज्ञमृजुधानयन्तु प्रतिक्षत्रे प्रतिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रदितिष्ठामि गोषु प्रतिप्रजायां प्रतिष्ठामि भवे विश्वमन्याभिवा वृधे तदन्यस्यामधिश्रुदं दिवे च विश्वकर्मणे पृथिव्यै चाकरं नमः अस्कान् द्यौ पृथिवीम् अस्कान्नृषभो युवागाः स्कन्येमा विश्वा भुवना स्कन्नो यज्ञप्रजनयदो जायदे अस्कन्नाज्जायदे पृषाः स्कन्ना प्रजनिषीमहि ये देवा येषामिदम्भागधेयं बभूव येषां प्रयाजा उदा नो याजाः इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः अग्निहोदृभ्यो देवेभ्यः स्वाहा उदत्या नो दिवा मदिः अदितिरूत्यागमद सा शन्ताजीमयस्करद अपस्रुध उद्तिया दैव्या पिशजा शं नो अश्विनाता मस्मद्रप अप्रध शिरािस्कद शम नतद सूर्य संवादो वावरप अपसृधः तदित्पदं न विचिकेद विद्वान् यन्मृदत् पुनरप्येदि जीवान् त्रिवृद्ध्यद्भुवनस्य रथवृद जीवो गर्भो न जीवाद प्रत्यस्मै पिपीषते विश्वानि विदुषे अरङ्गमाय जक्मावे अपश्चने नरे इन्दुरिन्दुमवागाद इन्दोरिन्द्रोपाद तस्य द इन्द्रबीदस्य मधुमदः उपहुदस्योपहुदो भक्षयामि ब्रह्मप्रतिष्ठा मनसो ब्रह्मवाचः ब्रह्म, ब्रह्म यज्ञानागुंहविषमाज्यस्य अतिरिक्तं कर्मणो यच्च हीनं यज्ञपर्वाणि प्रतिरन्नेधिकल्पयन् स्वाहा कृदाहुदिरेदुदेवान् आश्राविदमत्याश्राविदम् वषट्कृदमत्यन्यूक्तं च यज्ञे अतिरिक्तं कर्मणो यच्च हीनं यज्ञपर्वाणि प्रदिरन्नेऽधिकल्पयन् स्वाहा कृता हूतिरेदुदेवान् यद्धो देव अधिपादयानि वाजा चिप्रयदं देवहेडनम् अरायो अस्मागुं अभिदुच्छुनायते अन्यत्रास्मन्मरुतस्तन्निधेतन तदम् आपस्तदुतायदे पुनः स्वाधिष्ठा दीदिरुचाय शस्यते अयगुं समुद्र उद विश्वभेषजः स्वाह कृतस्य समुतृप्णो दुर्भुवः उद्वयं तमसस्परी उद्त्यम् चित्रम् इमं मे वरुणतत्त्वायामि त्वं नो अग्ने स नो अग्ने त्वमग्ने अयासि प्रजापदे इमं जीवेभ्य परिधिं दधामि मैषां नुगादपरो अर्धमेधं शतं जीवन्तु शरदपुरुचीः तिरो मृत्युं दधदां पर्वदेना इष्टेभ्य स्वाहा वषडनिष्ठेभ्य स्वाहा एषजं दुरिष्ठ्यै स्वाहा निष्कृत्यै स्वाहा दौरार्ध्यै स्वाहा दैवीभ्यस्तनुभ्यः स्वाहा हृद्धै स्वाहा समृद्ध्यै स्वाहा यत इन्द्रभयामहे तदो नो अभयं कृधि मखवञ्चघ्रि तव तन्न उदये विद्विषो विमृधो जहि स्वस्तिदा विषस्पतिः पुत्रः विमृधो वशी वृषेन्द्रपुर एतुनः स्वस्तिदा अभयंकरः आभिर्गीर्भिर्यततो न ऊनम् आप्यायय हरिवो वर्धमानः यतास्तोभ्यो महि गोत्रा रुजांसि भूयिष्ठभाजो अधदे यज्ञस्य क्रियदेमिधो अग्ने तदस्य कल्पय त्वगुंहि वेद्ध यथा तथं यज्ञः यज्ञपुरुषः अग्ने तदस्य कल्पय त्वगुं हि वेद्ध यथा तथं यत्पाकर्त्रा मनःसा यज्ञस्य मन्वते मर्ता सह अग्निष्ठद्धोदा विद्विजानन् यजिष्ठो देवागुं ऋदुषो यजाधी। यद्देवा देवहेडनं देवासश्चकृमा वयम् आदित्यास्तस्मान् मामुञ्जद हृदस्य हृदेन देवा जीवनकाम्यायद वाचान् नृदमूदिमा अग्निर्मा तस्मादेन सह गार्भपत्यप्रमुञ्चतु दुरितायानि च कृम करोतु मामनेन संतेन द्या वा पृथिवी ऋतेन त्वगुं सरस्वती ऋतान्मामुञ्चता गुंहसः यदन्यकृतमाहिम स जादशगुं साधुत जामिषगुं साध जगुं साधुदवाकनीयसः अनाज्ञातं देवकृप यते नः तस्मात्त्वमस्माञ्जादवेदो मुमुग्धि यद्वाचा यन्मनसा बाहुभ्य मोरुभ्यामष्टिवद्भ्याम् शिष्ण्यैर्यदनृतं च कृमा वयम् तस्मादेन सह यद्धस्ताभ्यां चकरकिल्भिषाणि अक्षाणां जिग्नमानः दूरे पश्या च राष्ट्रभृच्च तान्यप्सरसा वनुदत्ता मृणानि अदीव्यन्नृणं यदहं चकार यद्वादास्यन् सन् जगाराजनेभ्यः अग्निर्मा तस्मादेन सह यन्मयिमादा गर्भे सति ये पारयत्पिता अग्निर्मा तस्मादेन सह यदा पिपेष मातरं पितरं पुत्रप्रमुदिदोधयन् अहिगुंसितौ पितरौ मया तद तदग्ने अनृनो भवामि यदन्तरिक्षं पृथिवीमुदद्याम् यन्मादरं पिदरं वा जिहिंसिम अग्निर्मा तस्मादेन सह यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनैयत्पुराणम् अग्निर्मा तस्मादेन सह अधिक्रामामि दुरिदयदेनः च चहामि रिप्रं परमे सधस्ते यत्र सुकृतो नापि दुष्कृतः हा। तमारोहामि सुकृतां नु लोकं कृते देवा अमृजतैतदेनः कृन्मनुष्येषु मामु तदो मा यदि किञ्चिदानशे अग्निर्मा तस्मादेन सह गार्कपत्यप्रमुञ्जतु दुरितायानि च कृम करोतु मामनेन सं दिविजादा अप्सुजादाः याजादा जादाषधिभ्यः अधोया या अग्निजा आपः ता न स्युन्धन्तु स्युन्धनीः यदापो न क्दं दुरितं चराम यद्वा दिवा नूतनै यत्पुराणं हिरण्यवर्णस्तद उत्पुनीतनः वरुण तत्त्वयामि त्वं नो अग्ने सत्वं नो अग्ने त्वमग्ने अयासि यते ग्राुह्ना चिचिदुसोमराजन् प्रियाण्यङ्गानि स्वधिता परोगुंषि तत्सम् अनागसो अधमित संक्षयेमा यत्ते ग्रावा बाहुच्युदो अच्युच्यवुः नरो यत्ते दुदुः दक्षिणेन तत् आप्यायतां तत्ते निष्ठ्या यदां यत् ते त्वचं बिभिदुर्यच योनिम् यथास्तानात् प्रच्युदो वेणसित्मना त्वया तत्सोमगुप्तमस्तु नः स नः सन्था सत्परमे समेत्य अन्योन्यो भवति वर्णो अस्य तस्मिन् वयमुप स्मः आनो भजसदसि विश्वरूपे नृचक्षासोम उद शुश्रुगस्थो मा नो नागास्तनु वो वावृधानः आनो नो रूपं वहतु जायमानः उपक्षरन्दिजुह्वो घृतेन प्रियाण्यङ्गानि तव वर्धयन्ति हि तस्मै दे नम यद्वषट् उपमा राजन् सुकृदेह्वयस्व सम्प्राणापानाभ्यागं समुचक्षुषात्वं सगं श्रोत्रेण गच्छस्व सोमराजन् यत्त आस्तितगं शमुतत्ते अस्तु जानीतान्न सङ्गमनेपधीनाम् यदं जानीतात् परमे व्योमन् वृकासधस्ता विदरूपमस्य यदा गच्छात् पतिभिर्देवयानैः इष्टापूर्ते कृणोतादाविरस्मै अरिष्टो राजन्नगदः परेहि नमस्ते अस्तु चक्षसे रघूयते नातमारोह सह यजमानेन सूर्यं गच्छतात् परमे व्यो मन् अभूद्देव सविदा वन्द्यो नुनः इदानीमह्न उपवाच्यो नृभिः वियो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणयधा दधत उपनो मित्रावरुणा विहावदम् अन्वादिद्याधा मिहनः सखाया आदित्यानां प्रसितिर्भेतिः उग्रा शताप अष्टा कविषा परिणो वृणक्तो आप्यायस्वसंते सम्ते यद् दिदीक्षे मनसा यच्च वाचा यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण यद्रेतसा मिथुनेनाप्यात्मना अभ्यो लोका दधिरे ते च शुक्रादीक्षायै तपसो विमोचनीः आपो विमोक्ुतिर्मयिते ज इन्द्रियं यदृचा साम्नायजुषा पशूनां चरुमनुभविषा दिदीक्षे यच्छन्धोभि रोषधीभिर्वनस्पतौ अद्भ्यो लोका दधीरे ते जन्द्रियं शुक्रादीक्षायै तपसो विमोचनीः आपो विमोक्त्रिर्मयि ते ज इन्द्रियं येन ब्रह्म येनक्षत्रं येनेन्द्राग्नि प्रजापति सोमो येन राजा विश्वे ऋषयो येन प्राणाः अभ्यो लोकादधिरे ते ज इन्द्रियं शुक्रादीक्षायै तपःसो विमोचनीः आपो विमोक्तिर्मयितेज इन्द्रियम् अपं पुष्पमस्योषधिनागुं रसः सोमस्य प्रियं धाम अग्ने प्रियतमगं हविस्वाहा अपां पुष्पमस्योषधिनागं रसः सोमस्य प्रियं धाम इन्द्रस्य प्रियतमगं हविस्वाहा अपां पुष्पमस्योषधिनागों रसः सोमस्य प्रियं धाम विश्वेषां देवानां प्रियतमघुं कविस्वाहा वयगुं सोमव्रदे तव मनस्तनूषुपिप्रदः प्रजावन्तो अशीमही देवेभ्यपि दृभ्य स्वाहा सोमेभ्यपि दृभ्य स्वाहा कव्येभ्यपि दृभ्य स्वाहा देवास इह मादयध्वं सौम्यास इह मादयध्वं कव्यास इह मादयध्वम् अनन्तरि सापिदर सौम्या सोमपि धाद अपैदो मृत्युरमृतं न आगन् वैवस्वतो अभयं कृणोतु पर्णं वनस्पतेरिव अभिन क्षीयता गुम्रयिः सचतां न शचीपतिः परं मृत्यो अनुपरेहि पन्था यस्ते स्व देवयानाद चक्षुष्मदे शृण्वते ते ब्रवीमि मा न प्रजागुम्रीरिषो मोदवीरान् इदमूनुश्रेयो वस्सानमा गन्म यद्गोजिद्धनजिदश्वजिद्यद पर्णं वनस्पतेरिव अभिनशि यदा गुम्रहीः स च आभिर्गेर्भिर्यततो न न माप्याययः दिवो वर्धमानः यदास्तोदृभ्यो मकिगोत्रा गोत्राजांसि भूयिष्ठभाजो अधदेश्याम ब्रह्मप्रावा दिष्मतन्नो माहासीत् ॐ shanti shanti shanti dehi